सा च काले महाभागजन्ममासं प्रविश्य वै कुमारं जनयामास हरिश्चन्द्रमकल्मषं स वै राजा हरिश्चन्द्रस्यै शङ्कय इति स्मृतः स राजा बलवानासीत् सम्राट् सर्वमहीक्षितां तस्य सर्वे महीपालाः शासनावनताः तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् शस्त्रप्रतापेन दिता द्वीपाः सप्तजनेश्वरा स निर्दित्यमहीं कृत्स्नां सशैलवनकाननाम् आजहार महाराजा राजसूयं महाप्रतुं तस्य सर्वे महीपाला धनान्या जुराज्ञया द्विजानां परिवेष्टारस्तस्मिन् यज्ञे च ते प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः यथोक्तवन्तस्ते या तस्मिंस्ततः पञ्चगुणाधिकम् अतर्पयच्च विविधैर्वसुभिर्ब्रह्मणांस्तदा प्रसर्पकाले सम्प्राप्ते नानादिभ्यः